कपालिन्यै कान्तायै कामदायै नमः कामसुन्दर्यै नमः ॐ कालरात्र्यै नमः ॐ कालिकाय नमः ॐ कालभैरवपूजितायै नमः कुरुकुल्लायै नमः ॐ कामिन्यै नमः ॐ कमनीयस्वभाविन्यै नमः ॐ कुलीनायै नमः ॐ कुलवर्त्मप्रकाशिन्यै नमः ॐ कस्तूरीरसनीलायै नमः कुलकान्तायै ॐ करालास्याय कामार्तायै नमः ॐ कलावत्यै नमः ॐ कृशोदर्यै नमः ॐ कामाख्यायै कौमार्यै कुलपालिन्यै नमः ्यायै कलहाय कुलपूजिताय नमः नमः कामेश्वर्य ॐ कामकान्तायै कुञ्जेश्वरगामिन्यै कामदात्र्यै कामहर्त्र्यै नमः ॐ कृष्णाय कपर्दिन्यै कुमुदायै नमः na de haaye कलायै क्रीन्द्रूपाय कुलगम्यायै नमः ॐ कमलायै नमः ॐ कृष्णपूजितायै नमः ॐ कृशाङ्ग्यै नमः ॐ किन्नर्यै नमः ॐ कर्त्र्यै नमः ॐ नमः ॐ कम्बुकण्ठ्यै नमः ॐ कौलिन्यै नमः नमः नमः नमः मजीविन्यै कुलस्त्रियै नमः कीर्तिकायै कृत्यायै नमः कीर्त्यै नमः ॐ कुलपालिकायै नमः कामदेवकलायै नमः र्धिन्यै कुन्ताय कुमुदप्रीतायै कदम्बकुसुमोत्सुकायै कृष्णानन्दप्रदायन्य कुमारीपूजनरतायै नमः ॐ कुमारी, कुमारी गणशोभितायै ी रञ्जनरतायै कुमारीव्रतधारिण्यै नमः ॐ कङ्काल्यै नमः ॐ कमनीयायै नमः ॐ शास्त्रविशारदायै कपालखड्वाङ्धरायै कालभैरवरूपिण्यै नमः ॐ कोट्यै नमः कोटराक्षै नमः ॐ काशीवासिन्यै नमः ॐ कैलासवासिन्यै नमः ॐ कात्यायन्यै नमः कार्यकर्यै नमः ॐ काव्यशास्त्रप्रमोदिन्यै कामाकर्षणरूपायै नमः ॐ कामपीठनिवासिन्यै नमः ङ्गिन्यै नमः ॐ काकिन्यै नमः ॐ क्रीडायै कुत्सितायै नमः ॐ कलहप्रिया प्राणायै नमः प्राणाय कौशिक्यै नमः ॐ कीर्तिवर्धिन्यै नमः ॐ कुम्भस्तन्यै नमः ॐ कटाक्षायै नमः ॐ काव्याय कोकलदप्रियाय कांतारवासिन्यै नमः ॐ कान्त्यै नमः कठिनाय नमः ॐ कृष्णवल्लभायै नमः